गरुडपुराणम् प्रेतकाण्डं धर्मकाण्डम् अध्यायम् नयन् गरुड उवाच उक्तमाद्यां क्रियां यावन्नृपोऽपीति त्वया नख कस्य चित्केन चिद्राज्ञा कृता पुरा श्रीकृष्ण उवाच सुपर्णशृणो वक्ष्यामि यथा राज्ञा क्रिया कृदा आसीकृतयुगे राजा वा गो वै बभ्रुवापनः पृथिव्याश्च दुरन्ताया गोप्ता पक्षीन्द्रधर्मदः कृष्णाम् सभुम् कृते वसुधाधिपः न पापकृत्कश्चिदासीत् तस्मिन् राज्यं प्रशासति नासीत् चौरभयं तार्क्ष्य न क्षुद्रभयमेव हि नासीद्व्याधिभयञ्चापि तस्मिन् जनपदेश्वरे स्वधर्मे रेमिरे चासी तेजसा भास्करोपमः अक्षुब्ध त्वे चलसमसहिष्णुत्वे धरासमः स कदाचिन्महाबाहुप्रभूत बलवाहनः वनम् जगामगहनम् हयानाञ्जशदैर्वृदः सिंहनादैश्च योगानाम् शङ्खदुन्दुभिनिस्वनैः आसीत् किल शब्दस्तस्मिन् गच्छति पार्थिवे तत्र तत्र च विप्रेन्द्रै निर्ययौ परया प्रीत्यावनं मृगजिखांसया स गच्छन् ददृश्ये धीमन्नन्दनप्रतिमं वनं बिल्वार्कखि राकीर्णं कपिद्धध्वजः विषमै पर्वतैश्चैव सर्वतश्च समन्वितम् निर्जलं निर्मनुष्यञ्च बहुयोजनमायतं मृगसिंहैर्महाघोरैर् अन्यैश्चापि वने चरैः तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः लीलयालोडयामाससूदयन् विविधान् मृगान् राजा मृगप्रसङ्गेन तमनुप्राविशद्वनम् ये काकी वै हृदबलः क्षुत्पिपा सा समन्वितः स वनस्यान्तमासाद्य महच्चारण्यमासद महच्चारण्यमासद तृषया परयाविष्टोऽन्विष्यद् जलमितस्ततः स दूरात् पूरचक्राह्वं हंससारसनादितैः सूचितं सर आगत्य सश्वयेवव्यगाहद पद्मानाञ्च परागेण उत्पल्लानां रचेन च सुगन्धमलं शीतं पीत्वाम्भो निर्जगामः मार्गश्रमपरिश्रान्तस्तडागस्तडमण्डपम् न्यग्रोधम् न्यग्रोधं तस्याशु जडाश्वं श्वं, श्वं बबन्धः सतत्रास्तर तत्रास्तर मास्तिर्यखेडकानुपधाय च वायुना तत्र सेव्यामादस्तदाक्षणम् क्षणं सुप्ते नृपे तत्र प्रेदो वैप्रेतवाहनः कश्चिदत्रा जगामादयुक्तप्रेदशतेन च अस्ति चर्मशिराशेषशरीरपरिविभ्रमन् भक्ष्यं पेयं मार्गमाणो न बध्नादिधृतिम् कुचित् तमपूर्वं नृपो दृष्ट्वा परो दस्त्रं शरासने दृष्ट्वा सोऽपि पि भूपं तस्तौ स्वानुग्रदः तमवस्तितमालोक्यराजाप्राप्तकुतूहलः पप्रच्छतञ्चकोऽसीदि कुतो वा विकृतिं गतः प्रेद उवाच प्रेदभावो मया त्यक्तो गतिं प्राप्तोऽस्म्यहं परां त्वत्संयोगान् महाबाहु नास्ति धन्यतरोमया मया बभ्रुवाहन उवाच किमे तद्विपिने कोरे सर्वत्रादिभयानके दोधूयमाने वादेन, वादेन वाक्यरूपेण को न पदङ्गामशकाः क्षुद्रा कवन्धाश्च शिरांसि च मत्स्य कूर्मा कृकला स वृच्चिका भ्रमराहयः अधो मुघोर्ध्वपादास्ते क्रन्दमानाः सुदारुणम् प्रवान्दि वायवो वृक्षाज्वलन्दो विद्युदग्नयः इतस्ततो भ्रवन्दीव वायुनादृणसन्दधिः दृश्यन्ते विविधा जीवानागाश्च शलभव्रजाः श्रूयन्ते बहुधारा वा दृष्ट्वेदं विकृतं सर्वं वेपदे हृदयं मम प्रेद उवाच येषां नैवाग्निसंस्कारो न श्राद्धं नोदक्रियाः षट्पिण्डादशगात्राणि सपिण्डीकरणं न हि विश्वासखादिनो ये सुरापा स्वर्णहारिणः हा मृदा दु मरणाद्ये च ये चासूया पराजनाः प्रायश्चित्तविहीना ये अगम्यागमने रथाः कर्माभिर्भ्राम्यमाणास्ते प्राणिनः स्वकृतैरपि स्वकृतैरिह दुर्लभाभारपानीया दृश्यन्ते पीडिता भृश्यं यतेषाम् कृपया राजंस्त्वम् कुरुष्वाौध्वदेहिकम् येषां न मादानपितानपुत्रो न च बान्धवाः तेषा राजा स्वयम् कुर्यात् कर्माणि तु यतो नृपः आत्मनश्च शुभं कर्म कर्तव्यं येनाञ्जो दुर्गादिं तरेद भ्रातरकस्य के पुत्रा स्त्रियोऽपि स्वार्थकोविदाः न कार्यस्तेषु विश्रम्भस्वकृतम् भुज्यते यदः गृहेष्वार्था निवर्तन्ते श्मशाने चैव बान्धवाः शरीरम् काष्ठामादत्ते पापम् पुण्यम् सह व्रजेत अस्थिरेण शरीरेण कर्तव्यञ्चौर्ध्वदोहितम् राजोवाच कृश्यरूपकरालाक्षस्त्वम् प्रेद इव लक्ष्यसे कथयस्व कथयस्वः मम प्रीत्या प्रेदराज यथा तथम् तथा पृष्टः स वैराज्ञा उवाच सकलम् स्वकम् प्रेद उवाच कथयामि नृपश्रेष्ठसर्वमेवादितस्तव प्रेतत्वे कारणं श्रुत्वा दयां कर्तुमिहार्हसि वैदिश्यं नाम नगरं सर्वसम्पत्सुखावखं नानाजनपदाकीर्णं नानारत्नसमाकुलम् नानापुष्पवनाकीर्णम् नाना पुण्यजनावृधम् नाना तत्राकंन्यवसम्भूपदेवार्चनरथः सदा वैश्यजातिसुदेवोऽ नाम्ना विधिधमस्तु ते हव्येन तर्पिता देवा कव्येन विधरो मया विविधैर्धनयोगैश्च विप्रा सन्दर्पिता मया आकारश्च विहारश्च मया वै सुनिवेशिदः दीनानादविशिष्टेभ्यो मया दत्तमनेकधा तत्सर्वं निष्फलं जातं मम दैवादुपागदम् न मेति सम् तदित्ताद न सुहृन्न च बान्धवाः न च मित्रम् हि दस्तादृह्यकुल्याद्दौर्ध्वदेहिकम् तेन मम जातं नृपोत्तम एकादशम् त्रिपक्षम् सिकमधाभिकम् प्रतिमास्यानि चान्यानि ह्येवं श्राद्धानि षोडश यस्यैतानि न दीयन्ते प्रेदश्राद्धानि भूपदे प्रेदत्वं सुस्थिरं तस्यैः प्रेदत्वं सुस्थिरं सैः श्राद्धशतैरपि एवं ज्ञात्वा महाराजप्रेदत्वा दुद्धरस्व मां वर्णानाञ्चैव सर्वेषां राजा बन्धुरिहोच्यदे तन्मां धारय राजेन्द्रमणिरत्नं ददामि ते यथा मम तथा कार्यम् महीपादयां कृत्वा मयि प्रभो स स गोत्रैर्वा निष्ठुरैर्न हि मे पृषो सर्गस्तदो दुष्टं प्रेतत्वं प्राप्तवानहम् क्षुतृष्विष्टदेहश्च भक्ष्यं पानं न चाप्नुयाद अदो विकृतिरेष वै कृष्यात्वादिरमांसका क्षुत्रुर्जन्यम् महादुःखमनुभवामि पुनः पुनः अकल्याणम् हि प्रेदत्वम् वृषोत्सर्गम् विना कृतम् तस्माद् राजन्दया सिन्धो प्रार्थयामि तव ग्रदः राजो वाज वर्धते मत्कुले प्रेद इति ज्ञेयम् कथम् नरहि तन्ममा चक्ष्व हि प्रेद प्रेदत्वान्मुच्यते कथम् प्रेद उवाच लिङ्गेन पीडया प्रेदोऽनु माधव्यो नरैः सदा वक्ष्यामि पीडास्ता राजन्या वै प्रेद कृदावी हृदु यदा वंशो न वर्धते म्रियन्ते चाल्पवयस्स पीडा प्रेद सम्भवा अकस्माद्वृत्तिहरणमप्रतिष्ठा जनेषु वै अकस्मात् गृह दाह स्यात् सा पीडाप्रेदसम्भवा स्वगेहे कलहो नित्यं स्याच्च मिथ्याभिशंसनं राजयक्ष्मादि सम्भूदि सा पीडाप्रेदसम्भवा अपि नैव लभ्ये धनस्येत सा पीडा प्रेदसम्भवा सुवृष्टौ कृषिनाशस्याद्वाणिज्याद्वृत्तिनाशनं कलत्रम् प्रतिकूलं स्यात् सा पीडा प्रेदसम्भवा वृक्षोत्सर्गो यदि भवेत् प्रेदत्वान्मुच्यते तदा तस्मान्नृपत्वमप्येवं वृषोत्सर्गं कुरु प्रभो मामुद्दिश्य नृपेप्यत्राधिकारोऽत्यनुकम्पया राजपुत्रो हतः कश्चिन्मयै वास्तदो मया कुरुष्वत्वं गृहीत्वा मे तद्धनेन वृषोत्सवम् कार्तिक्याम् पौर्णमास्यां वाश्वयुम् मध्ये ध नृपः रवधियुक्तदिवसे कृषिष्टामे वृषोत्सवम् पुण्यान्विप्रान् समाहूय वह्निं स्थाप्य विधानदः मन्त्रैर्होमस्तदा कार्यषड्भिर्नृपविधानदः बहून् विप्रान् भोजयेधा तद्रत्नात्तधनेन वै एवम् कृते महीपालमममुक्तिर्भविष्यदि श्रीकृष्ण उभज तथेदिप्रतिजग्राहमणिम् राजा तदखग क्रियाधिकारस्तस्यैव यो धनग्रासको भवेद कुर्वतोस्तु तयोर्वार्तामेवम् प्रेदमहीक्षितोः क्षणत्कारस्तु खण्डानाम् भेरीणाम् भ्राङ्कृदितिस्तद्धा दस्तदा राजसेना चतुरङ्गा समापद पश्यामागतमात्रायाम् प्रेतश्चादृश्यताम् गदः तस्माद्वनाद्विनिसृत्य राजा विपुरमागमद स कार्तिक्याम् पूर्णिमायाम् प्रेदमुद्दिश्य संव्यधाद वृषोत्सर्गम् विधानेन तन्मण्याप्तधनेन च प्रेदोऽप्ययं सपदि लब्धसुवर्णदेहकर्मान्त आगद यदि प्रणनाम देवत्वदीय महिमायमिधि स्तुवन् स यादो दिवं गरुडभूपदिना कृतज्ञः यदत्ते सर्वमाख्यातम् यथा भूपदिनापि सह उद्धृतप्रेदभावद्वै किमन्यच्छोतुमिच्छसि इति श्रीकारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेदकल्पे श्रीकृष्णगरुडसंवादे राजकृतवृष्योत्सर्गक्रियादिनिरूपणम् नाम नवमोऽध्यायः ओम्